राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे यो ब्रह्मरुद्रसुकनारद भीष्ममुख्यै लक्षितो न सहसा पुरुषस्य तस्य यो ब्रह्म रुद्रशुकनारदभीष्ममुख्यैः आलक्षितो न सहसा पुरुषस्य तस्य सद्यो वशीकरणचूर्णम् अनन्तशक्तिं तं राधिकाचरणरेणुम् अनुस्मरामि सद्यो वशीकरणचूर्णमनन्तशक्तिं तं राधिकाचरणरेणुम् अनुस्मरमि राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे राधे